ततो वृतो मया भर्त्रा तव पुत्रो महाबलः अपनेतुं मया चिरायमाणां मां स्वयमेवागतो हन्तुम् इमां सते तेन मम कान्तेन कवपुत्रेण धीमता बलादितो विनिष्पिश्य व्यपनीतो महात्मना विकर्षन्तौ महावेगौ गर्जमानौ परस्परं पश्यैवं युधि विक्रान्ता वेतौ च नरराक्षसौ वैशम्पायन तस्याश्रुत्वैव वचनम् उत्पपातयुधिष्ठिरः अर्जुनो न कुलश्चैव सहदेवश्च वीर्यवाल् तौ ते विकर्षन्तौ परस्परं काङ्क्षमाणौ जयं चैव सिंहाविव बलोत्कटौ अथा न्योन्यं समाश्लिष्य विकर्षन्तौ पुनः दावाग्निधूमसदृशं चक्रतुःपार्थिवं रजः वसुधारेणुसंवीतौ वसुधाधरसन्निभौ बभ्राजतुर्यथा शैलौ निहारेणाभिसंवृतौ क्लिश्यमानं निरीक्ष्य च उवाचेदं वचः पार्थः प्रहसच्च न कैरिवा भीममाभैर्महाबाहो न त्वां बुद्ध्यामहे समेतं भीमरूपेण रक्षसाश्रमकर्षितं। काः येऽस्मित् स्थितः वार्था पातयिष्यामि राक्षसं नकुलः सह देवश्च मातरं गोपयिष्यतः